अथ विंशः सर्गः तत शोर्पणखाघोरा राघवाश्रममागता राक्षसाना च भ्रातरौ सह सीतया ते रामम् पर्णशालायामुपविष्टम् महाबलम् ददृशः सीतया सार्धम् लक्ष्मणेनापि सेवितम् ताम् दृष्ट्वा राघवः श्रीमानागसांस्तांश्च राक्षसान् अब्रवीद्भ्रातरम् रामो लक्ष्मणम् दीप्ततेजसम् मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनन्तरः इमा नस्यावधिष्यामि पदवीमागतानि ह वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः तथेति लक्ष्मणो वाक्यम् राघवस्य प्रपूजयन् राघवोऽपि महच्चापम् चामीकरविभूषितम् चकार सज्यम् धर्मात्मा तानि रक्षांसि चाब्रवीत् पुत्रौ दशरथस्या वा भ्रातरौ रामलक्ष्मणौ प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डकावनम् फलमूलाशरौ दान्तौ तापसौ ब्रह्मचारिणौ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथा युष्मान् पापात्मकान् हन्तुम् विप्रकारान् महाहवे ऋषीणाम् तु नियोगेन सम्प्राप्तः स शरासनः तिष्ठतैवात्र सन्तुष्टा नोपवर्तितुमर्हथा तस्य तद्वचनम् श्रुत्वा राक्षसास्ते चतुर्दशा ऊचुर्वाचम् सुसङ्गृद्धा ब्रह्मघ्नाः शूलपाणयः संरक्तनयना घोरारामम् परुषामधुराभाषम् मृष्टा दृष्टपराक्रमम् क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः हा। त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि काहिते ते शक्तिरेकस्य बहूनाम् रणमूर्धनी अस्माकमग्रतस्थातुम् किम् पुनर्योद्धुमाहवे एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः प्राणां स््यक्ष्यसि वीर्यम् च धनुश्चकरपीडितम् इत्येवमुक्त्वा संरद्धा राक्षसास्ते चतुर्दशा उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः चिक्षिपुस्तानि शूलानि राघवम् प्रति तानि शूलानि काकुत्स्थः समस्तानि ताभद्भिरेव चिच्छेदशरैः काञ्चन भूषितैः ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् जग्राहपरमक्रुद्धश्चतुर्दश शिलाशितान् गृहीत्वा धनुराजम्य लक्ष्यानुद्दिश्य राक्षसान् मुमोच राघवो बाणान् वज्रा निवशत क्रतुः ते भित्त्वा रक्षसाम् विनिष्पेतुस्तदा भूमौ वल्मीकादिवपन्नगाः तैर्भग्नहृदया भूमौ छिन्नमूला इव विकृता विगता सवः तान् भूमौ दृष्ट्वा राक्षसी क्रोधमूर्च्छिता उपगम्य खरम् सा तु भ्रातुः समीपे शोकार्ता ससर्जनि महत दम् महत् सस्वरम् मुमुचे बाष्पम् विवर्णवदना तदा निपातितान् प्रेक्षरणे तु राक्षसान् प्रधापिता शूर्पणका पुनस्ततः निखिलेन रक्षसाम् शशंस सर्वम् भगिनीकरस्य सा इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे विंशः